नारदपुराणम् पूर्वार्थम् अध्यायम् फर्टि एय्ट् नारद उवाच श्रुतमया महाभाग तापत्रयचिकित्सितं तथापि मे मनोभ्रान्तं न स्थितिं लभतेञ्जसा आत्मव्यतिक्रमं ब्रह्मन् दुर्जनाचरितं कथम् सोढुं शक्येदमनुजैस्तन्ममाख्याहिमानद सूत उवाच तच्छ्रुत्वा नारदेनोक्तं ब्रह्मपुत्रः सनन्दनः उवाच हर्षसंयुक्तस्मरन् भरतचेष्टितम् सनन्दन उवाच अत्र ते कथयिष्यामि इतिहासं पुरातनम् यं श्रुत्वा त्वन्मनोभ्रान्तमास्थानं लभते भृशम् भरदो नाम भूपतिः आर्षभो यस्य नाम्नेदं भारतं खण्डमुच्यते स राजा प्राप्तराज्यस्तु पितृपैदामहं क्रमाद पालया पालयामास धर्मेण पिधृवद्रञ्जयन् प्रजाः ईजे च विविधैर्यज्ञैर्भगवन्तमथोक्षजं सर्वदेवात्मकं कर्मसु तन्मतिः तदत्समुत्पाद्य सुधान्विरक्तो विषयेषु सह मुक्त्वा राज्यं यय विद्वान् पुनश्च पुलहाश्रमम् शालग्रामं महाक्षेत्रं मुमुक्षुजनसेविदं तत्रासौ तापसो तापसो भूत्वा राराधनं मुने चकारभक्तिभावेन यथा लब्धसपर्यया नित्यं प्रातः समप्लुत्य निर्मले भलि नारद उप तिष्ठ द्रविभक्रिया गृणन् ब्रह्माक्षरं परं अर्धाश्रमे समागत्य वासुदेवं जगत्पतिम् समाहृतैस्वयम् द्रव्यैः समित् कृ कुशमृदादिभिः फलैः पुष्पैस्तथा पत्रैस्तुलस्य स्वच्छवारिभिः प्रयदो भूत्वा भक्तिप्रसरसंप्लुतः स चैकदा महाभागस्नात्वा प्रातः समाहिदः चक्रनद्यां जपं तस्थौ मुहूर्तत्रयमम्बुनि अथा जगाम तत्तीरं जलं पादुं पिपासिता आसन्नप्रसव ब्रह्मन्नैकैवणी वनाद तद समभवत्तत्र पीतप्राये जले तया सिंहस्य नादः सुमहान् सर्वप्राणिभयङ्करः तदः स सिंहसन्नादादुत्प्लुदा निम्नगातडम् अत्युञ्जारोहणेनास्या नद्यां गर्भः समुह्यमानं वेगेन वीचिमाला परिप्लुतं जग्राहभरतो गर्भात्पदितं मृगपोदकं गर्भप्रच्युदिदुःखेन प्रोत्तुङ्गाक्रणेन च मुनेन्द्रसाधु हरिणीनिपपादममार च हरिणीं तां विलोक्याथ विपन्नाम् नृपतापसः मृगपोदम् समागृह्य स्वामाश्रममुपागतः स्वमाश्रममुपागतः चकारानुदिनम् चासौ मृगपोदस्य वै नृपः पोषणम् पुष्यमाणश्च सते न ववृधे मुने चकाराश्रमपर्यन्तम् तृणानि गहनेषु सः दूरङ्गत्वा च शार्दूलत्राः सा दभ्याययौ पुनः च साय मायात्यथाश्रमं पुनश्च भरदस्याभूदाश्रमस्योढजान्धरे तस्य तस्मिन्मृगे दूरसमीपरिवर्तिनि आसीञ्चेदसमसक्तं न तद्धा ह्यच्युदे मुने विमुक्तराजतनयप्रोचिताशेष बान्धवः मम त्वस चकारोञ्चैस्तस्मिन् हरिणपोदके किं वृकैभक्षितो व्याघ्रैः किं सिंहेन निष्कांदे तस्यासि चिजायमाणे निष्कान्दे तस्यासीदिति मानसं प्रीतिप्रसन्नवदनपार्श्वस्ते चाभवन्मृगे ममत्वा कृष्टमानसह कालेन गच्छदा शोधकालं चक्रे महीपतिः पिदेव शास्त्रं पुत्रेण मृगपोधेन वीक्षितः मृगमेव तद्रा तदा द्राक्षी तत्यजन् प्राणान्सावपि मृगो बभूव स मुने तादृशीं भावनां गतः जातिस्मरत्वादुद्विघ्नसंसारस्य द्विजोत्तम विखाद भूय शालग्रामय शुष्कृण्र्ण सकुन्मपोषण मृगत्केदुभूत कर्मण निष्कृति ययौ त्र्योत्सृष्टदेहोत्सव ज्ञे जाति स्मज सदा चार वु यागिना प्रवरे कुल सर्वविज्ञानसम्पन्न सर्वशास्त्रार्थतत्त्वविद अपश्यत्समुनिश्रेष्ठस्वात्मानं प्रकृतेः परम् आत्मनोधि गतज्ञानाद्वेवादीनि महामुनि सर्वभूतन्यभेदेन ददर्श स महामतिः न पपाठगुरुप्रोक्तं कृतोपनयन श्रुतं न ददर्शचकर्माणि शास्त्राणि जगृहेन च उक्तोऽपि बहुश किञ्चिज्जण्डवाक्यमभाषत तदप्यसंस्कारगुणं ग्रामभाषोक्तिसं युधम् अपद्धस्तव पुस्त्वसोऽपि मलिनाम्बरदृङ्मुने प्लिन्नदन्तां तरः सर्वैपरिभूतः स नागरैः संहानेन परं हानिं योगार्थे कुरुते यतः जनेनावमतो योगी योगसिद्धिं च विन्दति तस्माञ्चरेदवयोगी सदा धर्ममदूषयन् जना यथावमन्येयुर्गच्छेयुर्नैव सङ्गतिम् हिरण्यगर्भवचनं विचिन्त्येद्धं महामतिः आत्मानं दर्शयामास जडोन्मत्ताकृतिं जने गुङ्गे कुल्माश्रवढकान् शाकं त्रण्यफलं कणान् यद्यदाप्नोति स बहुनत्ति वै कालसम्भवं पितर्युपरदेशोध भ्रातृभ्रातृव्यपान्धवैः कारिदः क्षेत्रकर्मादिकनाहारपोषिदः सरुक्षपीनावयवो जडकारी च कर्मणि सर्वलोकोपकरणं बभू वा कारवेदनः तं तादृशमस्व संस्कारं विप्राकृतिविचेष्टितं क्षतः सौवीरराज्यस्य पिष्टियोग्यमन्यदा स राजा शिपिकारूढो गन्तुं कृतमधिर्द्विज बभुवेक्षुमदितिरे कपिलक्षेर्वराश्रमं श्रेय किमत्र संसारे दुःखप्राये नृणामिति प्रष्टुं कपिलाख्यं महामुनिम् उवाहशिपिकामस्य क्षतोर्वचनचोदिदः नृणां विष्टिगृहीतानामन्येषां सोऽपि मध्यगः गृहीतो विष्टिना विप्रसर्वज्ञानैकभाजनं जातिस्मरोत्सौ पापस्य क्षयकाम उवाहतां ययौ जडगतिस्तत्र युगमात्रावलोकनम् कुर्वन्मधिमदां श्रेष्ठस्ते त्वन्ये त्वजिदं ययुः विलोक्य नृपतिः सोधविषमं शिबिकागदं किमे ददित्याह समं गम्यतां शिमिका शिबिका वहाः पुनस्तथैव शिबिकां विलोक्य विषमां हसन् नृप किमे तदित्याह भवद्भिर्गम्यधेन्यथा भूपदे वदतस्तस्य श्रुत्वेद्धं बहुशो वचः वाहका प्रोचुरयं यादित्यासत्वरं राजोवाचा राजोवाच किं श्रान्तोऽस्यल्पमध्वानं त्वयो शिबिका मम किमायाससखो नत्वं पिवानासि निरीक्ष्य से ब्राह्मण उवाच नाहम्भीवान चैवोढा शिपिका भवदो मया न श्रान्तोऽस्मिन् चायासो वोढान्योऽस्ति महीपदे राजोवाच प्रत्यक्षं दृश्यते पीवा त्वद्यापि शिपिका त्वयि श्रमश्च भारोद्वहने भवत्येव हि देहिनां ब्राह्मण उवाच प्रत्यक्षं भवदा भूव यद्दृष्टं मम तद्वद बलवान बलश्चेदि वाच्यं पश्चाद्विशेषणं त्वयोटा शिबिका चेदि त्वय्यद्यापि जसंस्थिता मेध्या तदप्यत्र भवान् शृणोदु वचनं मम भूमौ पादयुगं चाध जङ्के पादद्वये स्थिते ऊरु जङ्घाद्वयावस्थौ तदाधारं तथोदरं पक्षस्थलं तथा बाहुस्कन्धौ चोदरसंस्थितौ स्कन्धाश्रितयें शिबिका ममाधारोऽत्र किं कृतः शिबिकायां स्थितं छेदं देहं त्वदुपलक्षितम् तत्र त्वमहमाप्यत्रेत्युच्यते चेदमन्यथा अहं त्वं च तथान्येज भूतैरुह्याश्च पार्थिव गुणप्रवाहपतितो भूतवर्गोऽपि जात्ययं कर्मवश्या गुणश्चैदे सत्त्वाद्या पृथिवीपदे अविद्या सञ्चितं तस्चा शेषेषु जन्दुषु आत्मा शुद्धोऽक्षरः शान्दो निर्गुणप्रकृते परः प्रवृध्य पचयौन्नस्त एकस्याखिलजन्तुषु यदा यदानो न नचैवा पचयो नृप तदापि बालिशोऽसि त्वं कया युक्त्या त्वयेरितं भूपादजङ्घा कट्यूरुजरादिषु संस्थिता शिबिकेयं यदा स्कन्धे तदा भारसमत्वया तधान्यजन्तुभिर्भूप शिबिकोढा न केवलं शैलद्रुम गृहोद्धोऽपि पृथिवीसं भवोऽपि च यथा पुंसपृथग्भावप्राकृतैकर्णैर्नृप सोढव्यस् सुमहान्भारकदमो नृपदे मया यद्रव्यो शिबिका चेयं तद्रव्यो भूतसङ्ग्रहः भवदो मेखिलस्यास्य समत्वेनोव बृंहिदः सनन्दन उवाच यवमुक्त्वा भवन्मौनी स वहञ्चिबिकां द्विजः सोऽ राजा वतीर्योर्व्यां तत्पादौ जागृह्येत्वरन् राजो वाजा भो भो विसृज्य शिबिकां प्रसादं कुरु मे द्विजा कथ्यतां को भवानत्र जाल्मरूपधरस्थिदः यो भवान्यादपत्यं वा यदागमनकारणं तत्सर्वं कथ्यतां विद्वन्मह्यं शुश्रूषवे त्वया ब्राह्मण उवाच श्रूयतां कोह मित्येतद्वक्तुं भुवनशक्यते उपयोगनिमित्तं च सर्वत्रागमनक्रिया सुखदुःखोपभोगौ दूतौ देहाद्युपपादकौ धर्म धर्मोद्भव भोक्तुं जन्तुर्देहादिमृच्छति सर्वस्यैव हि भूपालजन्तौ सर्वत्र कारणं धर्माधर्मौ यतस्तस्मात् कारणं पृच्छ्यदेहुदः राजोवाच धर्माधर्मौ न सन्देहः सर्वकार्येषु कारणम् उपभोगनिमित्तं च देहाद्देहान्तरागमः यत्त्वे तद्भवता प्रोक्तं कोऽहमित्येतदात्मनः वक्तुं न शक्यते तन्मेच्छ प्रवर्तते योऽस्ति योऽहमिति ब्रह्मन् कथं वक्तुं न शक्यते आत्मन्येव न दोषाय शब्दोऽहमिति यो द्विजा ब्राह्मण उवाच शब्दोऽहमिति दोषाय नात्मन्येवं तथैव तद् अनात्मन्यात्मविज्ञानं शब्दो वा श्रुतिलक्षणः जिह्वा ब्रवृत्यहमिति दन्तौष्ठतालुकनृप येतेनाहं यत् सर्वे वाङ्निष्पादनहेतवः किं हेदुभिर्वदूत्येषा वागे वागमिति स्वयं तथापि वागह मेद्वक्तुमित्थं न युज्यते पिण्डपृथव्यध पुंसशिरः पान्यादिलक्षणः तदोऽहमिति पुत्रैणां संज्ञां राजन्करोम्यहम् यद्यन्योऽस्ति परकोऽपि मत्तपार्थिवसत्तमं न देहोहमयं चान्ये वक्तुमेवमपीष्यते यदा समस्तदेहेषु पुमानेको व्यवस्थितः तददा हि को भवान् कोऽह तद्विभलं वचः राजा शिपिका चेयं वयं वा पुरःसराः अयम् च भवतो लोको न सदेतन् नृपोच्यते वृक्षा दारुततश्चेयं शिपिका त्वदधिष्ठिता क्व वृक्षसंज्ञा वै दारु साज्ञा धवा वृक्षारूढो महाराजो नायं वदति ते जनः न च दारुणि सर्वस्त्वां ब्रवीदि शिपिकागदं क्षिपिका दारुसङ्कादो स्वनामस्थितिसंस्थितः अन्विष्यतां नृपश्रेष्ठानन्तदा शिपिका त्वया एवं छत्रं शलाकाभ्यपृथग्भावो विमृश्यताम् क्वजादं छत्रमित्येष न्यायस्त्वयि तद्धामयि पुमान् स्त्रीगौरजाबाजी कुञ्जरो विहगस्तरुः देहेषु लोकसंज्ञेयं विज्ञेया कर्म हेदुषु पुमान् देवोन नरोन न नरो पश्युर्न च पादपः शरीराकृतिभेदास्तु भूपैदे कर्मयो नयः वस्तुराजेधि यल्ले के यञ्च राजभटात्मकं तथान्यश्च नृपेद्धं तन्न सत्यं कल्पनामयं यस्तु कालान्तरेणा विनाश संज्ञामुपैदि वै परिणामादिसम्भुतं वस्तु नृपतञ्च त्वं राजा सर्वशोकस्य पितुः पुत्रोऽपो रिपुः पत्न्या पधिः पिधा भूप वदाम्यहं त्वं किमेतच्छिरः किं तु शिरस्तव तथोदरं किमुपादाधिकं त्वेदन्नैव किं देमहीपदे समस्तावयवेभ्यस्त्वं पृथक्भूतो व्यवस्थितः कोह मीत्यत्र निपुणं भूत्वा चिन्तय पार्थिव एवं व्यवस्थिते तत्त्वे मयाहमिति भाविदुं पृथगूचरणनिष्पाद्यं शक्यं तु नृपदे कथम् इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्विपा षट्चत्वारिंशोऽध्यायः ओम